देवानामिव ते सर्वम् वाचिबद्धम् न संशयः स दीनैव दुर्धर्ष तस्माच्छोचसि पुत्रक उपस्थितः सर्वकामैस्त्रिदिवे वासवो यथा विविधैरन्नपानैश्च प्रवरैः किम् नु शोचसि निरुक्तम् निगमम् छन्द स कृपात् हलायुधात् कृपा द्रोणादस्त्रविद्यामधीतवान् प्रभुस्त्वम् भुञ्जसे पुत्रसंस्तुतः सूतमागधैः तस्य ते विदितप्रज्ञ शोकमूलमिदम् कथम् लोकेऽस्मिन् ज्येष्ठभागीत्वम् तन्ममाचक्ष्वपुत्रक वैशम्पायन उवाच तस्य तद्वचनम् श्रुत्वा मन्द क्रोधवशानुगः पितरम् प्रत्युवाचेदम् स्वमतिम् सम्प्रकाशयन् दुर्योधन उवाच यथा कुपुरुषस्तथा अमर्षम् धारये चोग्रम् निनीषुः कालपर्ययम् अमर्षणः स्वाः प्रकृतिरभिभूय परम् स्थितः क्लेशान् मुमुक्षुः परजान स पुरुष उच्यते सन्तोषो वै श्रियम् हन्ति ह्यभिमानम् च भारत अनुक्रोशभये चोभेयैर्वृतो नाश्नुते महत् न प्रीणाति मद्भुक्तम् श्रियम् दृष्ट्वा युधिष्ठिरे अतिज्वलन्तीम् कौन्तेये विवर्णकरणीम् मम सपत्नान् रुध्यतोत्मानम् हीयमानम् निशम्य च अदृश्यामपि कौन्तेय श्रियम् पश्यन्निबोद्यताम्